श्री ओम् श्रीसीतारामचन्द्राभ्यां नमः अथ श्रीमध्यात्मरामायणे अयोध्याखण्डे प्रथमसर्गः श्रीमहादेव उवाच एकदा सुखमासीनं रामम् स्वस्थपुरा जिरे सर्वाभरणसम्पन्नम् रत्नसिंहासने स्थितम् नीलोत्पालदलश्यामम् कौस्तुभमुक्तकन्धरम् सीतया रत्नदण्डेन चामरेणाथ विजितम् विनोदयन्तम् ताम्बूल चर्वणादिभिरादरात् नार्दोऽ द्रष्टुम् अम्बराद्यत्र राघव शुद्ध स्फटिक सङ्काश शरच्चन्द्र इवामलः अतर्कितम् उपायातो नारदो दिव्यदर्शनः तन् दृष्ट्वा सहसोत्थाय रामः प्रीत्या कृताञ्जलिः न नाम शिरसा भूमौ सीतया स शक्तिमान् उवाच नारदम् राम प्रीत्या, प्रीत्या परमया स्वीयुतः संसारिणाम् मनश्रेष्ठ दुर्लभम् तव दर्शनम् अस्माकम् विषयासक्त चेतसां नितरां मुने अवाप्तं मे पुनर्जन्म कृतपुण्य महोदये संसारिणापि मुने लभ्यते सत्समागमः अथ त्व दर्शनादेव कृतार्थोऽस्मि मुनीश्वर किं कार्यं ते मया कार्यम् ब्रूहि तत् करवाणि अथ तं नारदोप्याः घवम् भक्तवर्तलं किं मोहयसि मां राम वाक्यलोकानुसारिभिः संसार्यमिहि संसार्यहम् इति प्रोक्तं सत्यमेतया विभो जगतामादिभूताय सा माया तदाश्रया सदा भाति मायाया त्रिगुणात्मिका सुतेजस्रं शुक्लकृष्ण लोहिता सर्वदापय लोकत्रय महागेः गृहस्थम् उदाहृते तं विष्णो जानकी लक्ष्मी शिवस्तं जानकी शिव ब्रह्मास्थम् जानकी वाणी सूर्यास्तं जानकी प्रभा भवान् शशाङ्कः सीता तु रोहिणी शुभलक्षणः चक्रत्वमेव बहुलोमि सीता साहानलो भवान् यमत्वं कालरूपश्च सीता संयमिनि प्रभो निवृति जगन्नाथ तामृती जानकी शुभ रामत्वमेव वरुणो भार्गवी जानकी शुभ वायुस्त्वं रामसीता तु सदा गीतीता कुबेरस्त्वं रामसीता सर्वसम्पत्र कीर्तितः रुद्राणि जानकी प्रोक्ता रुद्रस्त्वं लोकनाशकरोत् लोके स्त्रीवाचकं यावत् तत् सर्वं जानकी शुभः पुन्नामवाचकं यावत् तत् सर्वं हि राघवे तस्मात् लोकत्रयेदेव युवाभ्यां नास्ति किञ्चन तद्भाषा शोधिता ज्ञानम् अव्याकृतमितिर्यते तस्मां तत् सूत्रम् लिङ्गम् सर्वात्मकं ततः अहङ्कार च बुद्धि च पञ्चप्राणेन्द्रियाणि च लिङ्ग <coughs> लिङ्गमित्युच्यते प्राज्ञे जन्ममृत्युः सुखादि मत् सव जीवस्य लोके भाति कारणो अवाच्या कारणोपाधि स्थूलम सूक्ष्म कारणाख्यम उपाधि तृतीय चित्ते एक जीव सेयुक्त परमेश्वर जप्न सुयुक्ताख्या संस्कृति प्रवर्त तस्याभिलक्षण साक्षी चिन्मात्रं लघुत्तमः तत्त एव जगज्जातम् सर्वं प्रतिष्ठितम् तय्येव लीयते कृष्णम् तद्मात्र सर्वकारणम् रज्जोऽवात्मानं जीवं ज्ञात्वा भयं भवेत् परमात्माहमिति ज्ञात्वा भयदुःख विमोच्यते चिन्मात्र सर्व सर्वदेहेषु बुद्धय त्वया यस्मात् प्रकाशन्ते सर्वस्यात्मा ततो भवान् अज्ञानाम् न्यस्यते सर्वम् स्वय रज्जो भयङ्गवत् सज्ज्ञानात् लीयते सर्वम् तस्मात् ज्ञानं तदाभ्यसेत् तस्माद् भक्तियुक्तानाम् विज्ञानम् भवति क्रमात् तस्मात् तद्भक्तियुक्तायै मुक्तिभाजस्तैव हि अहं त्वद्भक्तभक्तानां तद्भक्तानां च किङ्करः अतो माम् मनुगृह्णीष्व मोहयस्व न प्रभो इत्युक्त्वा बहुशो नत्वा स्वानन्दाश्रु परिप्लुतः उवाच एव चरम् राम ब्रह्मण नोदितोऽस्म्यहम् राजरक्षार्थम् पिता त्वामभिषेक्ष्यति यदि राजाभिसंसक्तौ रावणं न हनिष्यति प्रतिज्ञाते कृता राम भूभार हरणाय वै तत् कुरु राजेन्द्र सत्यसन्ध त्वमेव हि श्रुत्वै तद्गदितं रामो नारदं प्राहसस्मिदम् शृणु नारद किञ्चित् विद्यते अवितं क्वचेत् प्रतिज्ञातं च यत्पूर्वम् तन्न संशयः किन्तु कालानुरोधेन तत्तत् प्रारब्ध संशयात् हरिष्येत् सर्वभूवारम् क्रमेणा सुरमण्डलम् रावणस्य विनाशार्थं। श्वन्तादण्डकारनम् चतुर्दश समा युषि त्वा मुनिवेशधृ सीतामिषेण तं दुष्टम् सकुलं नाशयाम्यहम् एवं रामे प्रतिज्ञाते नारदः प्रममोचः सीतामिषेण तं दुष्टम् सकुलं नाशयाम्यहम् एवं रामे प्रतिज्ञाते नारदः प्रममोदः पदक्षेण कृत्वा दण्डवत् प्रणिपत्य तम् अनुज्ञातश्च ययो देव गतिं मुनिः संवादं पठति शृणोति संस्मरे द्वा यो नित्यं मुनिवर रामयो सभ्या सम्प्राप्नोत्यमरसु दुर्लभं विमोक्षम् कैवल्यं विरति क्रमेण इति श्रीमदध्यात्मरामायणे मामहेश्वरसमाधेयुद्याकाण्डे प्रथमः सर्गः श्रीसीतारामचन्द्रर्पणमस्तु